ययिमेवाद्राति कृत्वा भोजा निमस्तेः यस्मिन् क्षयन्ति प्रतिश षडुर्वेर्याः परङ्गो विचारेतस्य देवस्य क्रुद्धस्ते रदागो एवम् विन्द्वाम् स्राह्मणञ्जिराद्रे प्रयोहितप्रक्षीणे यद्ब्रह्मज्ञस्य प्रदेमम् च पाशाले यस्माद्वाता तथा भवन्त यस्मा समलाधिविक्षरम् दिरस्य देवस्य क्रुद्धस्यैलता एवम् विद्वांसम् ब्राह्मणम् जिनादि उद्वेहे पजरोहितप्रक्षीणेः ब्रह्मज्ञस्य प्रतीमुञ्चपाशान् गौमानय च प्राणय दिरस्मात् प्राणम् जोरा विश्वादस्य देवस्य ऋद्धस्येतदा शोष एवम् विद्वांसम् ब्राह्मणम् जिनाति उक्तेः पयरोहितप्रक्षीणेः ब्रह्मजस्य प्रतिमुञ्चपाशान् च प्राणेन द्यावाह पृथिवी तदपयच्चपानेन देवस्य ऋद्धस्येतदा शोषेवम् विद्वांसम् जिनाति उद्वेहे पजरोषितप्रक्षीणे हि ब्रह्मजस्य प्रतीमम् चपाशाः यस्मिन् विराट् परमेष्ठे प्रजापर्वैरीश्वरः सह पङ्क्याश्रितः यः परस्य प्राणम् पारमश्च देवस्य वृद्धस्यैतदा लोजदेवम् विद्वांसम् ब्राह्मणम् जिनाति कृद्दे पजरोहितप्रक्षेः यद्ब्रह्मज्ञस्य प्रतिमुञ्चपाशान् यक्ष्मिः पञ्चदिशो अधिश्रिताश्च तावो यज्ञस्य त्रयोक्षरा क्रुद्धश्च क्षुरैक्षरतस्य देवस्य क्रुद्धस्यैतदा गोयरेवम् विद्वांसम् ब्राह्मणञ्जिलादि उद्वेः पजरोहितप्रक्षीणी हिर्ब्रह्मजस्य प्रतिमुञ्च पाषाः योऽपजर्बभोः ब्रह्म नस्पति रोदयः भूतोपविश्वद्भवदस्य यस्पतिस्तस्य देवस्य ऋद्धता गोज एवम् विद्वांसम् ब्राह्मणम् विनाति ऋवेः पजरोहितप्रक्षीणीहर्ब्रह्मजस्य प्रतेमुञ्च त्रैर्विवीतम् त्रिंशरम् गम् तयोदशम् मासं यो निर्विमीते दे तस्य देवस्य वृद्धस्यैतदा गोजदेवम् विद्वांसङ्ग्राम् जिनाति उद्वे प्रक्षेणेः ब्रह्मजस्य प्रतीमम् च पाषाः कृष्णम् निदानम् हर स्वपर्णा ृत्रम् सदा देवस्य क्रुद्धस्यैतदा गोढेवम् विद्वांसम् ब्राह्मणम् जिगाति उद्वे पयरोहितप्रक्षीणेः ब्रह्मजस्य प्रदीपम् च पाधाहारेः चन्द्रम् कस्य परोचनावर्जलसम्हितम् पुष्करम् चित्रवाहारो यस्मिन् सौर्याः देवा सप्तसादन्दस्य देवस्य क्रुद्धस्यैतदा गोजदेवम् विद्वांसम् ब्राह्मणम् जिनाति मृगे पजरोहितप्रक्षीणे हृब्रह्मज्जस्य प्रतीवम् च वासाहारेणोमस्त्रय पुरस्ताहन्तरम् प्रतिगृह्णाति पश्चात् ज्योतिरमसाहारेमप्रमादन्तश्च देवस्य क्रुद्धस्यैतदा गोजदेवम् विद्वांसम् ब्राह्मणम् जिनाति रुद्वे पजरोहितप्रक्षीणेः ब्रह्मजस्य प्रतीवञ्चपाशाहरन्यः पक्षाभिः सन्दमन्यः सपाले सद्भिः यद्रोहितवयनन्ददेवास्तस्य देवस्य क्रुद्धस्ते तदा लोजदेवम् विद्वांसम् ब्राह्मणञ्जिरादि उद्वे पजरोहितप्रक्षीणे हब्रह्मजस्य प्रतीवम् च पाषाल स मरोहसायमग्निर्भवति तपिस्रो भामति पाल्यम् तदा विधाभूत्वान्तरिक्षेण याति सयङ्गो भूत्तापति मध्यतो दिवन्तस्य देवस्य वृद्धस्यैतदा गोयदेवम् विद्वांसम् ब्राह्मणम् जिनाति वृद्धे त्वयरोहितप्रक्षीणे हि ब्रह्मद्यस्य प्रतीमम् च पादा सहस्रान्यम् विजयदानस्य पक्षो हरे हंसस्य वदत स्वर्गम् स देवान् सर्वारुश्चपादद्य सम्पश्यन् याति भुवादानि विश्वाकस्य देवस्य क्रुद्धश्रीलदालो देवम् विद्वांसम् ब्राह्मणम् विनाति उपयलोहितप्रक्षीणे हि ब्रह्मद्यस्य प्रदेम् च बालाहार अयम् स देवो अप्न्तः सहस्र मोरः पुरुषादो अक्रीः चैदम् विश्वम् भुवानन्दजानकस्य दे देवस्य वृद्धस्यैरदा एवम् विद्वाम् सम्भ्राह्मणम् जिनाति उद्वेहे पदरोहितप्रक्षेणीः ब्रह्मजस्य प्रती चपासान् शुक्रम् मृहन्ति हरजोरघुष्टजोः देवम् तन्वा आस्तवम् सर्वान् सुवर्णैः पटलैर्विभाजितस्य देवस्य उद्गस्ते तदा गोजने विद्वांसम् ब्राह्मणम् विनादि उद्वेः प्रजरोहितप्रक्षीलैः ब्रह्मज्ञस्य प्रतीमुञ्चपा हे रादित्याम् हरितः संवहन्ति यज्ञेन भुराविभाजितस्य दे दे देवस्य वृद्धस्यैवम् विद्वांसङ्ग्राह्मणीरायरोहितपक्षीणेः दे ब्रह्मज्ञस्य प्रतिमुञ्चवा सप्तजन्तिरथमे चक्रमेव वह अश्वो वहति सप्तनाहाभीचक्रमयरेवैयत्रे माविश्वारणाभीतस्थोस्तस्य देवस्य क्रुद्धस्ते तदा लोय एवम् विद्वांसम् ब्राह्मणम् जिराः परलोहितप्रक्षीणेः ब्रह्मज्ञस्य प्रतिमुञ्चपा अष्टधा शुक्ता वानिता महतीनाम् सरन्तः सर्वादिह पवदे मातरिष्वातस्य देवस्य क्रुद्धस्तेतदागो एवम् विद्वांसम् ब्राह्मणम् जिनाति उद्वेः पजरोहितप्रक्षेणेः ब्रह्मजस्य प्रतिमुञ्चपाः सम्यम् जन्तम् प्रतिशोदशालाः अन्तर्गायत्या अमृतस्य गर्भेदस्य देवस्य क्रुद्धस्यैतदागो एवम् विद्वांसम् ब्राह्मणम् जिनाति पुत्रे वजरोहितप्रक्षीणेः ब्रह्मभजस्य प्रतीमुञ्चमाधाहार निम्जस्तिश्रो चे निरजांसिमो अङ्गतिस्रः विद्वादेः अग्ने त्रेधाचरित्रम् त्रेधादेवानाञ्जनेवानि विद्वकस्य देवस्य रुद्रस्थिरदा एवम् विद्वाम्भम् ब्राह्मणम् विनाति ृजरोहितप्रक्षीणेः ब्रह्मजस्य प्रतीमुम् चपाशाहानः पृथिवीम् जायमादास पुत्रमदधादन्तरिक्षेतस्य देवस्य वृद्धस्यैतदाम् विद्वांसम् ब्राह्मणम् जिलादि हृदयपजरोहितप्रक्षीणीः ब्रह्मजस्य प्रतीमुम् चपाशाः तमज्ञेक्रतोभिः केतुभिर्हीकरसमिद्धिः किमभ्याः चन्मरुतः प्रश्नेवातरो यद्रोहीतमजनन्तरेवास्तस्य दे देवस्य कृतश्रेतदा गोयेवम् विद्वांसम् ब्राह्मणम् दिनाति उद्वेपजरोहितप्रक्षीणेः ब्रह्मजस्य प्रतेमुञ्चपाशाह यामदायस्य विश्व उपास प्रसिषञश्च देवाः यो शेषेद्युपदो यश्चतुष्पदस्तस्य देवस्य वर्धश्चैतदा गोजदेवम् विद्वांसम् ब्राह्मणम् विनादि उद्वेपरोहितपक्षीः ब्रह्मज्ञश्च वेदपाद्युपरमभून विचक्रवेद्युपादमभ्रेपष्टात् चतुष्पाच्चक्रेद्युपरदामभिस्वारे सम्पश्यन् पङ्क्तिमोऽस्तस्य देवस्य कृद्रस्ति तदा गो एवम् विन्द्वाम्सं ब्राह्मणम् जिनाति उद्वेहे भजरोहितप्रक्षीणेः ब्रह्मद्यस्य प्रतीमुञ्च बाधान् कृष्णायाः पुत्रवाद्यो नोरात्र्याः वत्सो जायत स हद्यामधियोहतिरोहोहरोहीतः धरेति सिता सद्दिवः स्पृष्टे प्रजाकर जत् रश्मिन्नभावम् महेन्द्रयेत्यावृतः स धाता समी धत्ता समाजन्नभमुच्छेदम् रश्मिन्नभावम् महेन्द्रेत्यावृतः सो यमासवरुणः सरुद्रः समाहारेवः रस्म्येतम् महेन्दरेत्यावेदः सोऽग्न्यः समुर्यः समो एवमाहारः रश्म्येतम् महेन्दरेत्यावेतः तम् वत्स उपतिष्ठन्त्येकशेषाणो युतोदशा रश्म्येतम् महेन्दरेत्यावेतः पश्चात्माञ्चादम् वन्द्य दुदेति विभाः सति रश्म्यधर्मभेदम् महेन्दरेत्यावेदः तस्यैषमारो लोति शित्यावेदः रश्म्यधर्मभेदम् महेन्दरेत्यावेदः तस्यैव कोशाः विष्टम्बानावधारिताः स प्रजाभ्यमपिपश्यति यच्च प्राणति यच्छ तमिदम् निगादम् सहस्रेश एकमृदेक एव एते अस्मिन् देवाय गमृतो भवन्ति कीर्तिश्च षष्टाम्भश्च नभश्च ब्राह्मणवक्ष सञ्चान्नम् चान्नाद्यम् च यदेतम् देवमे गमृतम् वेद न ना ना द्वितीयोश्चतुर्थो नाप्युच्यते दे। यदेतम् देवमे कमृतम् वेद न पञ्चमोदषष्ठः सप्तमो नाप्युच्यते जयेतम् देव मे कमृतम् वेद नाष्टय मो न ममोदय शमो नाप्युच्यते जयैतम् देव मे कमृतम् वेद स सर्वस्मै विपश्यति यश्च प्राणति यश्च जयतम् देवमे कवृतम् सर्वे अस्मिन् देवालये कवृतो भवन्ति जयतम् देवमे कवृतम् वेद तपश्च कीर्तिश्च षष्टाम्भश्च नभश्च ब्राह्मणवर्च्च सन्तान्नम् च जयतम् देवमे कवृतम् वेद भूतम् च भव्यम् च श्रद्धा च रुचिश्च स्वर्गश्च स्वराज यदेतम् देवमेकमृतम् वेद स देव मृत्युः सो अमृतम् सो ओभ्रा आम् स रक्षाः सृद्रोमसुमनिर्वसुदे नमो भागेव षत्कारो न सङ्गीतः तपस्येने सर्वे यातव प्रशिषमासते तस्यामोदात्मा नक्षत्रावशेः चन्द्रमसा अह्नः जायत तस्मादहरजायत समै भात्र्याः अजायत तस्माद् धात्रीरजायत स वा अन्तरिक्षादजायत तस्मादन्तरिक्षमजायत स वैवायो न जायत तस्मात्मायुरजायत सवे दिवोः जायत तस्माद्गौरभ्यजायत सवे दिभ्रमः जायत तस्माद् विशोः जायन्ता सवे भूमेःरजायत तस्मात् भूमेरजायत समाज्ञैरजायत तस्मादज्ञरजायत समाज्ञो जायत तस्मादापोहो जायन्त समादिग्रोः जायत तस्माद्गोः जायन्त ज्ञादजायत तस्माः ज्ञोः जायत स यज्ञस्तस्य यज्ञस्य यज्ञस्य शिरस्कृतम् सस्तन शिरविद्योः तते समु अस्मान्वस्यते पापाय वा भद्राय वा पुरुषाय शूराय वा गर्पाः गणोः शोषय धेन यद्वा तावाहंसे भगवन् महिमो भो ते तन् पश्यताम् उपोदे मध्वे मद्गारिवादिर्यन्पुरम् भूयारिन्द्रो न पुराद्भूयारिन्द्रादिमृत्युभ्याः भूयानराद्याः शच्या परिस्त्वमिन्द्रादिविभो प्रभोरि प्रोभाः स्महे वयम् नमस्ते अस्तु पश्यत पश्ये मा अन्नान्येन एष सा तेजसा ब्राह्मणवज्रसेन अम्भो अमो महस्स हरि प्रोपाः स्महे वयम् नमस्तेनस्तु पश्यत पश्य वा पश्यत अन्नान्येन एष स तेजरसा ब्राह्मणवत्रसेन अम्भो अरुणम् रजतम् रजः सहरि प्रोपाः नमस्ते अस्त्वपश्यत पश्यय मा पश्यत अन्नाद्येन एष सा तेजरसा ब्राह्मणवत्र हसेन उरुप्रशस्सुभोर्भोरित्तोपाः स्महे वयम् ब्रह्मस्ते अस्त्वपश्यत पश्चयमापश्यत अन्नान्येन एष सातेजरसा ब्राह्मणवर्त्रहसेन प्रदोवरोद्ययोः लोकलिखित्तोपाः स्महे वयम् नमस्ते अस्तु पश्यते पश्ये मा पश्यत अन्नान्येन एष सातेजसा ब्राह्मण वर्चरसेन नवद्मसु निनद्रस्पञ्जद्र सुधायद्र सुरिचित्तोपाः स्महे वयम् नमस्ते अस्तु पश्यत पश्चे मा पश्यत अन्नाद्येन एष सातेजसा ब्राह्मणवर्चरसेन इति त्रयोदशम् काण्डम् समाप्तम् अथ चतुर्दशम् काण्डम् ओ सर्तेनात्रभिराभोमिः सौर्येणात्राभिधाद्याः मृदेरादित्यास्तिष्ठन्ति दिवि सोमो अधिश्रितः सोमेनादित्या बलिनः सोमेन पृथिवीमहि अरो नक्षत्राणामेषामुपस्थे सोमाहीतः सोमम् मन्यदेव विवाञ्जाषम् सोमयम् ब्रह्माणोः विलम्बरस्यादि पार्थिवः यत्त्वा सोमप्रबन् निदः प्यायसे पुराः वायः सोमस्य रक्षिता समाः नाम् आर्क्षद्वे धारे सोम रक्षितः रावणामिच्छ दिनरे अष्टादि पार्थिवः चित्ते रामरम् चक्षोराभ्यञ्जनम् जाम्भोः कोच आसीत्यदयाः शौर्यापतिम् रहीभ्यः योचरी शौर्यायाः भद्रबिम्बा परिष्कृता स्तोमाः आसन् प्रतिघः कुरीयम् छन्दोर्यायाः अश्विनः वरागिरः सीत् पुरोगः सोमो वसो जुरा भवदश्विस्ता शौर्याय यत्प्रत्ययश मनोः अस्यात् जौराः गच्छ स्ताञ्जया शौर्यापतिम् वृक्षामाभ्याः अभिहेतौ गारोदयधामनावेधा श्रोत्रे दे चक्रया हस्ताञ्जलिबन्धाश्चादरः स्नेः दे चक्रेयात्याहरः अनस्वयम् परतिपतिम् ौर्यायाः रहत प्रागाः सहितायाः मासे यत् मगासु मन्यन्ते पङ्गूलीरुन्यष्यते यदश्विना पृच्छवाः रावयाः तम् त्रिचक्रेण वहतम् शौर्यायाः वैकम् चक्रम् वाहामासे पर जेष्ट्राय तस्थ यदयाः तम् शुभस्पति यजम् शौर्यामुपात् विश्वेः देवामृतत्वाजानन् पुत्रः पितैतभूषा वेतेः चक्रे सोऽर्ये ब्रह्मादधा अरैतम् चक्रैरद्वहा दा तदधादृद्वेदोः अयमनम् यजामहे सुबन्धुम् पतिवेम् उर्वारुतमेव बन्धनः त्रेतोऽम् चा विनामुदाः रेटोमुञ्च विनामुतः सुबद्धा नातस्करम् यथेयमिन्द्रमेद्भस्वपुत्रा सुभदासति भामुञ्च विवरोणस्य दाशाद्येनत्वा बद्धात् सविता सुसेवाः धृतस्य योनोः सुमृतस्य लोके श्योनम् देहे अस्तु सहसम् मह स्नेहस्तशय्याश्विः प्रवाहताम् प्रचय गृहान् गच्छ गृहपत्नी यथातोः वशिनी त्वम् विदध मा वदासि इह प्रियम् प्रजायैः ते समृद्धतामस्मिन् गृहे कारणपत्याय जागृहि केना पत्याः तन्वा आम् इहैवस्तम् मावियोस्तम् विश्वपातव्यश्नुताम् क्रीडन्तौ पुत्रे अन्नत्रे धर्मोदमानोऽस्पष्टयतौ पूर्वापरञ्च रतो माय तौ शिशो क्रीडन्तौ परीरातोऽर्न्नवम् विश्वान्यो भवविचष्टो विदह ज्यायदे नवाः नव भवय न षसाहेश्यग्रम् भाटम् देवेभ्य विदधास्यायम् रजम् द्रमस्थिरवे दीर्घमायोः परा देहि वा मूल्यम् ब्रह्मभ्यो विभजावसौ प्रत्यैषा पद्वतीः भो त्वाजायामीषते एधम् देशस्याज्ञातजः प्रतिर्बन्धेषु बध्यते अश्लीलातनोर्भ नितिरुशरति वा यः मुयात् परियद्वो वासशस्वमङ्गलमभ्योन्मुते आशसानम् विशसानमसोः अधिविकर्तनम् सौर्यायाः पश्य रोपाणि तान् ब्रह्माद संवाहरि दृष्टमेतत्क्रूरमेवोऽष्टमत् विषमन्नैतदत्तरे सोर्यानय्य ब्रह्मा वेदयित् माधूजमर्हति च यत्तत्सो ब्रह्म रच ब्रह्मावासस्व मङ्गलम् प्रायश्चित्तेय अध्ययेन जायानरिष्यति विबम्भगम् सम्भरणम् समृद्धवृतम् वदम् ब्रह्मा नस्पते पतिमस्तैरोहव चारुषम् फलो वदवाच वेता इहे साधनपरोगमाथे मङ्गाः वप्रजयाः वर्धयाथा सुमैर्यते सुमवर्गतौ ईश्वरे देवाक्रन्निहो वनाहंसि इमङ्गाः वः प्रजया संवेशायम् देवानाम् न ना वीनातिभागान् अस्मै न पूषा मरुतश्च सर्वेः अस्मै भो धातासहितासो भाति अनक्षदा रजवः सन्तपन्थाः नोजेभिः सखाः योजन्ते नो वरेयम् सम्भवे न समधीयम् नासम् भातासे चमचा यच्चमर्थ अक्षयसुराः याञ्च रजाधीरम् यद्वा स्वस्विनामर्चस्तेनेमाम् वच्च सामतम् हे च महानज्याजघेनादे वासुरा देनाक्षाभ्ये माम् वच्च सागम्प्सा आन्तर्यम् निप्रा सरील अपान्नपान् मधुमतीया हृन्दो वाल्भे वीर्याहं वृषम् तङ्गाभन्त आस्येः ब्राह्मणा सवारे हन्वीरम् पापाः अर्यम् लो अग्निम् पर्ये हेतुवो सम्प्रतेः क्षन्देश्वचोरो देवरश्च क्षन्दे हिरण्ड्यम् समो सन्तावश्चम्भावदृशम् युगस्य तद्वा क्षन्तः पश्य तव वित्रा भवन्तु समुपत्या रन्वाम् संस्पृशस्म खेलसस्य खेल सख्ययुगस्य शतग्रतो स्महोत्त्वा ते नोर्य पदम् आशासौमसम् पदा सौभाग्यम् नयम् भत्यो रमो हृता मुहोत्ता सन्नश्च स्वामृताः यथा सिंहर्मदीनाम् साम्राभाज्यम् स देवात्वम् सम्राज्ञे देवचुरस्तम् परेत्या सम्राज्ञे हि श्वचूरेषु सम्राज्ञुतरेवषु धनान्वस्सम्राज्ञे हि सम्राज्ञुतश्वश्वाः जानन्त्याश्च तद्धिरेजा देवीनन्दास्त्वा जनसेतम् जायन्तायुष्मदी दम्पती सत्त्वसाः जीवम् रोदम् देवानन्दघ्नम् मे ग्रामीरम् मेघाः वामम् ऋतभ्यो इदम् सा मेरिमयपतिभ्यो जनैः परेश्वरे शोरम् ध्रुवम् प्रजारैः धारयामि ते स्मारु्या पृथिव्या उपस्थेः समाधिष्ठानुमाद्याः सुमर्जाः दीर्घन्दायः समिता केनाग्निरस्या भूया हस्तम् जग्राहदक्षेण चेत गृह्णामिते हस्तम् माव्यचेष्टावयाः सह प्रजयाः च धनेन च देवस्तेः समिताहस्तम् गृह्णातु सोमो राजाः सुप्रजतम् सो करोतु अग्निः सुभगाम् जातवेदाप्रत्ययत्नीम् जलदष्टिम् जा करोतु गृह्णामीदेशौभत्वाय हस्तम् मया पत्याः जरदश्च यथा सा भवो मर्य एव स पिता पुरम् धर्मर्यम् देवाः भगस्ते हस्तरङ्गहेत् स विताहस्तरमगृहे पत्नी त्वमभिधर्मणाहम् गृहपादिस्तवास्त्व श्यामर्यम् ताराबृहस्पैः मया पत्याः प्रजावनिषन्व शरदक्षतम् सष्टावासोऽदधाच्छुभेकम् बृहस्पते प्राः कवीराम् हे हे माम् नारे हिंसविता भगश्च शौर्यादेव परिभक्ताम् प्रजयाः इन्द्राग्ने जावाः पृथिवे महापरिष्वा मित्रावरो नाभवोः अश्विलोभा बृहस्पतिर्म ब्रह्म इमाम् नारीम् प्रजलाः वर्धयन्तो बृहस्पति प्रथयः सोऽनुयाः शेषे एषाः अकल्पयत् हे देवापश्विना नारीम् पत्ये संशोः भजामसि इदम् तत् नोपै यदवस्तय दोषाः जाया जा जिज्ञासे परसाचरन्ति कामन्वर्तिष्येतकेर्न मग्मैः क का इमान् लिङ्गान् चक्रपाशाः अहम् विष्याः मे मे रोपः स्यावेद हरि पश्चन्मनसः मने नस्तेज मन्यमनसोदयमुच्च स्वयम् स भारो वरुणस्य पाशाः रक्त्वा मुञ्चामिवरुणस्य पाशाद्य रक्ता बद्धात् समिता सुचेवाः पुरम् लोकम् सुगमत्रयमुहम् कृणोमितभ्यम् सह पत्न्यैमधु उच्यच्छोः नारीम् सुहृदय दधातावे पश्चित्पदे पुरजयेत प्रजानन् भयस्तदक्ष जगदपादाम् भयस्तदक्ष दत्ता दुष्पलानि व्रष्टाः विदेशमध्यतोनुमद्धाम् सानो वास्तु सुमङ्गली सुखम् सुखम् वृहतुम् विश्वरोपम् हिरङ्ग्यवर्णम् सुहृतम् सुतक्रम् आद्रमापदोजय अमृतस्य लोकम् शौरम् पदेभ्यो हरतुम् प्रेणत्वम् अभ्राः तिग्नेम् वरुणापरीम् बृहस्पते इन्द्रापरघ्रेम् पुत्रिरेवास्मभ्याम् मार्यम् द्रष्टम् कुमार्या आम् स्थूणे देवगृदेव पथि शालाय देव्याद्वारम् स्वयम् कोपोपथम् ब्रह्मापारम् युज्यताम् ब्रह्मपूर्वम् ब्रह्मान्तो ब्रह्म सर्वदा अनाव्याधाम् देवपुरम् प्रपद्य शिवा सोनापतिलोके स्वभ्यमग्रे वर्यम् शोर्याम् सरः पतिभ्यो जायाम् न अग्रेः प्रजरहासः पुनः पत्नेः महिरदायु राधवश्च दीर्घायुरजयाय पतिर्जीवातिधर्मन् सोमस्य जाया, पति जाया प्रधम् द्वितीयोः अन्यष्ट परिस्तुलीयस्य मनुष्याजाः सौमादग्ः वयम् च पुत्रांश्चादालग् आवाहायम् सुवाः दिवीव यस्मिन् स्वभानाः अहम् सदा अभोदङ्गो वामीधुनाशोभस्पति प्रियाम् गोदल्याः अशीमहि ेन वचस्यम् सुगम् तीर्थम् स्वप्रपानुम् शोभस्पति स्थानम् प्रतिष्ठा भवति हरम् रामोदर्भो यान्यो यानि क्षेत्राः तास्ता प्रजापतिम्भत्यै लक्षन्त रक्षताः म् बन्धः वरुक्षासुखम् सत्यवाहरणम् यस्मिन् वेलो नैष्यत्यन्येषाम् निन्ददेव स इदम् समे न शृणुकैशा दम्पतीनामश्नुतः एतम् धर्मात् सरसश्च देवीरेषु वाहनस्पत्ये ऋदेधीतस्थः शौरास्ते अस्ति वद्धैभारम् तायिशम्बर तमोक्तमाहानम् श्चन्द्रम् वरहतुम् यक्ष्मायम् तिजताम् अन पुनष्टान्यज्ञयाः देवालयम् द्वयतागरताः मावेदम् परिपन्थिरोधम् तिसम्परी सुगेन दुर्गमतेः रामभ्रान्तराः गजः शङ्काः जला व्यवहरतुम् ब्रह्मण पर्याणम् विश्वरोः मय्यदस्ति चोरान्मदिभ्यः सविता तत्रेणोदौ शिवाना रीरमस्तवागन् निमम् भाता लोकमस्ती देश राः अयमारोः अश्विराः प्रजापतिः प्राजराः वर्धयन्तो आत्मन्मत्युर्वीजवादम् तस्याहम् न वामपदरबीरवस्याम् सा प्रजालक्षणाविर्भते दुर्गवेशभस्य रेताः प्रदेतिष्ठ विराशविष्टो निवे सारस्वती शने बालिप्रजाः यताम् भगस्य सुमहतावचत् उद्दरोर्मिश्रम्याः पापो योक्ताहारोच ये बालस्कृतौ येताम् अभो यक्षुणे श्यामाग्मा सुः सुः वीरतुः मासन्तरे यज्ञपरादिग्ने हरि शिवांशुभ्यः सुयमान् सुमर्जाः रजो देवताः महादेवम् कालः पत्यम् सभरयात् प्रतिष्ठे दिमिच्छन् देदमालाः अहं वे अविभवस्ताद् गृहात् सोऽन्येशे निर्णते गन्धरोतिष्ठा राजे प्रपादमे पर्यये पूर्वमग्निम् अधूर्यम् तथा सरस्मध्ये नारी दिभ्यश्च नमस्कुरु शर्म धर्मे ने नार्यः वस्तरे श्रीवायुप्रजाय राम्भस्य सुमताम्बल्बाजम् यस्यीधना तदारोहप्रजाय कन्याः विन्दते पतिम् उमस्त्रिणीयोभीते भविष्य सुप्राप्तिम् सियतो आरोहो होलाख्यमेघ देवोऽहम् निरक्षाम् जिनर्माः इह प्रजाञ्जापत्ये अस्मैरु ज्येष्ठत्रस्तरेण विधिष्ठन्ताम् मातुरस्या उपस्थान् मानाहारो अशरोदायमानाः सुमङ्गले वसे देवाज्ञम् सम्पत्ते प्रदेहो वेधदेवा सुमङ्गले प्रतराणि विधानाः सुजेवापत्येश्वशोडाय शम्भोः यो नाश्वे प्रगृहान्वि असूरेभ्यः स्योणा पत्नेः गृहेभ्यः सोनास्त्री हरमस्ति विषये श्यो न पुष्टाली राम्भा सुमङ्गली इदम् अधोरिमाम् समेतपश्य सौभाग्यमस्ति रतारेण जानुष्ठे हरीरपि पर्योन्महासम् दत्ता शास्त्रम् विपरेतरप्रतारिणम् मद्योम् विश्वाः रूपाणि आरो निर्भृतम् आरोहत्सहोर्यासः मित्रेहते सौभागायकम् आरोहदल्पम् समनस्य महा मेहप्रजाञ्जापत्ये अस्मै इन्द्राणीला सुबुधाध्यमाना ज्योतिरग्राषः प्रती जागरासि देवाग्रेण्ये पद्यन्तपत्ने समस्पृशन्त कन्वत्तमोभिः सूर्ये नाम ईश्वरोः पावहित्वा प्रजापति पच्च सम्भामेह प्रत्येतो विश्वामसो ने रामहे त्वा क्षपि तिषदम् व्यक्ताम् सरेः भागो जनुषाकस्य विद्धि अत्रस्तधर्मदम् वदन्ति हिमन्तराशोर्यम् च राष्ट्रे जैत्रमन्धिरात्परे हि नमस्ते गन्धर्मः कृणोमि नमो गन्धर्वस्य नमसे नमो भावाहारे चक्षुषे चण्णः विश्वाल ब्रह्मणा चै नभिजायाः शरदः परे हि गायामयम् सुमनाहस्यापोदितायम् धर्ममाले वृदाः परमम् सदस्तमयम् मयत्र प्रतिनन्द आयोः स्वम्भेदराजेषाम् मातापिता चेन सोभवाचमधीरो हयीनाम् प्रजाम् वाधा मृह पश्यतम् वयम् ोषम् चिवत मामेरय स्वयस्याम् बीजम् मनुष्यामी जानरो निजस्याः मुसन्त प्रहरेव सेवाः आरो होरो स्वहस्तम् वरिषयस्वजायाम् शोपनस्य महारः प्रजाम् कण्न् वाचामि हवोदय मानो दीर्घम् वा मानुहिताक्रेणो प्रजा प्रजापराजिरहोरात्राभ्याम् समानत्वरियाम अधुर्मङ्गले समाभिक्षेमम् शंवो भवद्विपदे धञ्च रे यद्दत्तम् मनो नासाकमेधत् बाधूजम्बासो भ्रश्चम् यो ब्रह्मणे जगतुवेदराः विषयद्रक्षाम् शकल्पाः लिखन्ति े दत्त ब्रह्मपाटम्बौ यो बाधो जम्बासः पद्मश्च अष्टम् द्युवम् ब्रह्मणे रमण्यमानौ बृहस्पते साकिन्दश्चनो हसामुदौ हरसामोदयमानौ सुखोषु पुत्रोषु गृहोदरा उषपः विभातेः रि सुभातिः आनन्दात्मद्रीयाः वृक्षेश्वरवादेन शस्परि शुम्भारीत्याः पृथिवी नन्दी गुण् व्रते आवसप्तद्रवङ्गेवी स्वारो सूर्यायैः देवेभ्यो मित्रायवरोणाय च ये भूतस्य प्रजयस्तेभ्य इदमाचरन्नमाः यदिक्षः पुराजत्वभ्यः आदृताः सन्धाः तासन्ध्यम् मघवाः पुरोवसम् निष्कर्ता विक्रोतम् पुनाः स्वपास्पत्तमच्छ सुरेदम् विषङ्गमुतलोहीतम् यत् निर्दहनीयाख्या आस्मिन् ताम् स्थानामध्यासजामि यामादे प्रत्यास ेषयामम् पौराग्यवयोरस्य पाशाः व्यद्धयोया स वृद्धयो यास्मिन् ताः स्थानावधि साधयामि ज्ञाने प्रियतमतमोः सा मे तस्याग्रे त्वम् बनस्पदेम् कृष्णवा वयम् रेशाम ये अन्तायाम ते स्तु यत्पत्नीः हृदम् तन्नस्य विषरतिः कन्यलः इवालोकात्पीयते अवादे क्षामषत स्वाहा बृहत्पतिना वा सृष्टाम् विश्वे देवाधारयन् वर्जो दोष प्रविष्टम् यत्ते संश्रेजामी बृहत्पति नाम सृष्टाम् विश्वे देवाधारयन् तेजवोष प्रविष्टै यस्ते देवाम् संश्रेजामसि बृहस्पति नाम सृष्टान् विश्वे देवाधारयन् बहवोष प्रविष्टा यस्ते देवाम् संश्रेजामसि बृहस्पति नाम सृष्टान् विश्वे देवाधारयन् यज घोष प्रविष्टै यस्ते देवाम् संश्रेजामसि बृहत्पदिनावसृष्टाम् विश्वे देवाधारयन् प्रयोगो सुप्रविष्टौ यष्टे नेवाम् सहं श्रेजामसि बृहत्पदिनावसृष्टाम् विश्वे देवाः धारयन् रसोगोषु प्रविष्टो यष्टे नेवाम् सहं श्रेजामसि यदि अग्नेष्टाकस्मादेन हस्तमितारप्रपञ्चदाे शरोदगृहे रोदेन गृह्मत्याम् अग्नेष्टा तस्मादेन हस्तमिताजप्रपञ्चदा जामयो यद्यो बदयोः गृहेतेः समरत्तिजो रोदयेन गृह्तीरघम् अग्निष्टाकस्मादेन हस्तमिताज प्रपञ्चदा प्रजायाः पशुरजत्वाः गृहेषु निष्ठे तव घटेन गतम् परस्मादेन दशस्त च प्रवञ्चरा दियन्नार्यो हे पौलाह्यामपन्थिका देयन्जीवाः दिशरक्षरान् इहेवाविन्दसम् नोदचक्रवा केवल संव्रती ीनौ स्वस्थरो विश्वयमायुर्गे सञ्जामोपधादे यदमाचरे कृतम् विवाहे कृत्याकृस्ता नेतारम् विरद्भजे यज्ञष्कृतै यच्छमलम् विवाहे वर्णतौ च यत् तत्सर्वम् भरस्य कम् फले विद्महे दुरितम् भयम् अम्भले मलम् सादरिताकम् फले दुरितम् अभो यज्ञयाः शुद्धाः प्रणायोम् हिराय कृत्रिमकङ्कदर्शनरञ्जेह अमाश्चाश्चेश्चेरन्यम् लिखात् अङ्गादङ्गाद्वयमस्याम् निदधति तन्मा प्रावृयम् मम देवान् दिवम् मा प्रापणुर्वा आन्तरिक्षम् अवो माप्रापन्मलमेलग्ने ृत्ययम् च हा सन्ताः लक्या विपय दापृथिव्याः सन्ताः लक्या विपय सौरधीनाम् सन्ताः लक्ष्या विप्रजयाम् वृद्धासनम् अहमसि माहमस्व्याहम् प्रेथिवेत्ताम् तामिह जयन्ते दावग्रहः पुत्रियन्ते सुधानः अरिष्टासोदरे परिबृहते वाजनसागरे यत् पितोदरिहायम् मनोमादन् ते अस्यै मध्ये सम्पत्ते प्रजा यच्छन्तो येजम्बोवारम् गतराय प्रजामस्ते द्रवीणम् चेह दत्त्वा तस्यानुपन्थाजम् स्वप्रजा च देहे प्रमध्यस्वशोधा बुध्यमाना दीर्घायित्वाय शरदाहारदाय दृढाङ्गच्छर्गपत्ने यथा दीर्घन्तायुः सहिताद्रे वासो ओ इति चतुर्दशम् काण्डम् समाप्तम्